गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् अण्ड् फोर्टि फोर् वरेण्य उवाच का शुक्ला गदिरुद्दिष्टा का च कृष्णा गजानन किं ब्रह्म संसृधिक मे अनुग्रहाद गजानन उवाच अग्निर्ज्योतिरह शुक्ला कर्मार्हमयनं गतिः चान्द्रं ज्योतिस्तदा धूमो रात्रिश्च दक्षिणायनम् कृष्णैते ब्रह्मसंसृत्योरवाप्तै करणं गतिः दृश्यादृश्यमिदं सर्वं ब्रह्मैवेत्यवधारय क्षरं पञ्चात्मकम् विद्धि तदन्तरक्षरं स्मृतम् उभाभ्यां यदधिक्रान्तं शुद्धं विद्धिसनातनम् अनेकजन्म सम्भूदि संसृतिः परिकीर्तिता संसृतिं प्राप्नुवन्त्येते ये तु मां गणयन्ति न ये मां सम्यगुपासन्ते परं ब्रह्मप्रयान्ति ते ध्यानाद्यैरुपचारैर्मां तथा पञ्चामृतादिभिः स्नानवस्त्राद्यलङ्कार सुगन्धधूपदीपकैः नैवेद्यैफलताम्बूलदक्षिणाभिश्चयोर्चयेद् भक्त्यैकचेदसा चैव तस्येष्ठं पूरयाम्यहं एवं प्रतिदिनं भक््रिया मद्भक्तो मां अधवा अथवा पूजाम् पूजां अधवा स्थिरचेदसा अधवा फलपत्राध्ययपुष्पमूलजलादिभिः पूजयेन्मां प्रयत्नेन तत्तदिष्टफलं लभेत त्रिविधास्वपि पूजा शुश्रेयसी मनसि मदा साप्युत्तम मा मदा पूजा मम ब्रह्मचारी गृहस्थो वा वानप्रस्थो यदिश्चयः एकां पूजां प्रकुर्वाणोऽप्यनो वा सिद्धिमृच्छति मदन्यं देवं यो ्या द्विषन् मामन्यदेवतां सोपि मामेव यजदे परन्द्वविधितो नृप यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेद् यादि कल्पसहस्रं स सा निर्यान् दुःखभाक् सदा भूतशुद्धिं विधायादौ प्राणानां स्थापनं तथा आकृष्य चेदशो वृत्तिं तदोन्यासमुपक्रमेद कृत्वा धर्मादृकान्यासं बहिश्चाधषडङ्कं न्यासं च मूलमन्त्रस्य तदो ध्यात्वा जपेन्मनुम् स्थिरचित्तो जपेन्मन्त्रम् यथा गुरुमुखोद्गतम् जपम् निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा एवं उपासीत स लभेन्मोक्षमव्ययं य उपासनयाहीनो धिनरो व्यर्थजन्मभाक् यज्ञोहमौषधमन्ध्रोऽग्निराज्यं च हविर्हुतं ध्यानं ध्येयस्तुतिस्तोत्रं नदिर्भक्तिरुपासना त्रयी ज्ञेयं पवित्रं च पितामहपितामहः ओङ्कारः पावनः साक्षी प्रभुर्मित्रं गतिर्लयः उत्पत्तिः प्रोषको बीजं शरणं वास एव च मृदमात्मा ब्रह्माहमेव दानं होमस्तपो भक्तिर्जपस्वाध्याय यद्यत्करोति तत्सर्वं समे मयि निवेदयेत् योषितोऽधदुराचारा पापास्त्रैवर्णिकास्तथा मदाश्रया विमुच्यन्ते किं मद्भक्द्विजादयः न विनश्यति मद्भक्तो ज्ञात्वे मां मद्विभूतयः प्रभवं मे विभूतिश्च न देवा व्याप्य विश्वं प्रतिष्ठितं यद्यच्छ्रेष्ठतमं लोके सा विभूतिर्निबोधमे ॐ तत्सदिति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीमदादि श्रीमन्महागणेश्वरे महापुराणे उत्तरखण्डे बालचरिते श्रीगजाननवरेण्यसंवादे उपासनायोगो नाम सप्तमोऽध्यायः ओ